अप्रतिरथा नो बाघः शिवाय नमः आशिषिषानो वृषभो न युध्मो घन घनहक्षोभनश्चरिषणीना सङ्ग्रन्दनानि मिषयेकवीरः शतपुंसेनाजयत्सागमिन्द्रः सङ्ग्रन्दनेनानि मिषेण धिष्णुना युत्कारेण दुश्चवणेन धिष्णुना तदिन्द्रेण जयत तत्सह ध्वञो नरयिषु हस्तेन वृष्णा सैषु हस्तैः स नि शङ्गभिर्वशीषग्रेष्ठा तैर्ष इन्द्रो गणेन सगम् सृष्टचित्सोमपाकुदध्योः द्युधन्वा प्रभञ्जन् सेनाः प्रमृणो युधा जयन्नस्मागमेऽ्य चलिता रथाना गोत्रभिदङ्गोविदम् वज्रबाहुञ्जयन्त मज्म प्रमृणन्तमोजसा इम पुंस जाता अनुवीरयध्वमिन्द्र पुं सखायोनुस गुं रबध्वम् बाणविज्ञायस्थविरः सहस्वानुवाजी सह अभिवीरो अभि सत्त्वा सहोजा जैत्रमिन्द्ररथमातिष्ठगोविते अभिगोत्राणि सहसागाहमानोदायो वीरः शतमन्युरिन्द्रः दुश्चवणप्रतनाषाढयुध्योऽस्माकपुंसेनावतु प्रयुत्सु इन्द्रहासा न्येता बृहस्पतिर्दक्षिणा यज्ञः पुरयेतु सोमः देवसेनानामभिभञ्जतीनाम् जयन्तीनाम् मरुतो यन्त्वग्रे इन्द्रस्य वृष्णो वरुणस्य राज्ञः आदित्यानाम् मरुताकम् शर्ध उग्रम् मामनसाम्भुवनच्छवानाम् घोषो देवानाम् जयतामुदस्थात् अस्माकमिन्द्रः समृतेष अस्माकीरा उतरेस्मुवता हेषु उधर मघवन्नायुत्सत्व मा मकाना महागुंसी उधृत्रहवाजिनाजिनाथा जयता मेत घोषा उप प्रेत जयता जल स्थिराव बाहव इंद्रो वह शर्म यथा सथ अवसृष्टा परापदशरव्ये ब्रह्मस पुंसिता गच्छा मित्रान् प्रविशमेषाम् कञ्चनोर्चिषः मर्माणि देवर्मभिश्चादयामि सोमस्त्वा राजामृतेनाभिवस्ता उरोर्वरीयो वरिवस्ते अस्तु जयन्तम् त्वामनुमदन्तु देवा यत्र बाणाः सम्पतन्ति कुमारा इव इन्द्रो नस्तत्र वृत्रहा विश्वाः शर्म